वादिनो वदन्त्यच्छर हवेगम् क्षिप्रोक्षे चे नापयति ब्रह्मणे विप्रोजादच्छं क्षिप्रोक्षति ब्रह्म नापयध्मा वैक्क्षदिनेऽध्यमेवैनत्रिवेदिं प्रोक्षप्रक्षावा क्षत्रेभ्य एवेन लोके चक्रोक्षतिक्रोरनिवमात्करोपोन्ते पुरस्कारात्प्रस्तरं गृह्णातिमुख्यमेवनं करोति यन्त्रं गृह्णादिप्रजापरिनायिद्यमुखेन संहितं बलिः कृणादिप्रजादे बलिः कृषगेवे प्रजागेव पृथिव्यान् प्रतिष्ठापयच्छ ेन पदुभिरणं करोत्युत्तरं भजगिरप्रस्तर गुण् प्रजाले प्रस्तरो यजमानमेवालमानावृत्तरं करोजमानो हिलमानावृत्तरोधाव्यावृत्त्या अनग्रहविष्कृतमेवेन गुण्ं लोकङ्कलयदि प्रेधानक्षित्रयविमे लोकागेभ्य एव लोकेभ्य क्षिणप्रसिदना यत्प्रशनोत्सम्भावकल् जलमानस्य स्यादुपरे वक्त्रः रत्युपरे भयतु वर्गो लोको यच्छ विवृत्तिमे वा मे नियच्छ दिवात्यग्रं प्रहरे जलत्यग्रं प्रहरेण्यः पर्यो पुरस्तात् प्रत्यस्यै पुरस्तात् प्रत्यस्य पुरभर्याल् लोकं कमयविष्टंगाद्यं विंसः कुमानेवास्य जायते यच्छेन लोकयशेन वायोग्ये तस्य देवास्य हस्तेन यो युग्य ते यमानस्य गोपीताय ब्रह्मदातिमा मदन्ति गो लोकयित्याहवनी रतिब्रो याद्यमाहवनी प्रहरति गिलमानमेवसु वर्गं लोकङ्गमयति विवाहेतमादिषदे यत्र तरङ्गो विश्वं च बर्हिरः प्रहरविशाञ्चनालम् भणयि वमा वेतस्य फर्गस्तगेश्वरो चवितोमभिमृजते त्याहयद्रोयादकम् नक्ष्यज्ञाभ्यम् गमये न्यजमानकम् सुवर्गाम् लोकार्थयेदकम् नित्येव लोगाद्यजमानमेव सुवर्गम् लोकम् गमयति ग्नेत्रयोज्यायागुम्भ्यादराेभ्यो हव्यम् अहन्तप्रामीयन्ततोषेत्संवादस्याय ततो वप्रापिषत्वम् देवताप्रेषम् मत्सप्रात्रे समसमद्भिगाभियात्तावध्यासवियो मान् मत्स्यन्धिगाभियाघ्नन्ति सप्तो हिमङ्ग समग्रवन्वनावृणे <laughs> परिभिष्टं भागणाम् वरे परिभिष्टं लभारन्ताने वेणादि परिभिन् परिदधादि रक्षदामवस्ते सद्यत्वरिदेव रक्षसामान् नवचारायणस्तात् परिदधाख्यादित्यैवस्तात् दक्षादित्य धामहितादेव रक्षागत्य वहन्ति गिरिधान्यां भोश्चे मन्यां कृत्वा यज्ञे आदधा युवा जयमान प्रयच्छे ब्रह्मवादिना वदन्ति देव यज्ञश्चाच्चारिभोपदगे स्वाहा भुवनपदगे स्वाहा भूतानां पलये स्वाहे विच्छन्नमनुमन्त्रयज्ञस्यैव ेवनामिवारे च पुरो नामन्तराभिमित्वा या सोमितनत्वायाश्रिष्टवकाभिमास्मिन् ते देवा अब्रुवन्ये देवार्योहाज्येन देवाद्यतामन्त्रयन्तराज्येण यमं तस्मा जगजेवानामन्नातो यमकृणागं राजाय एवं वे वत्र राज्यमन्नाज्यमहात्म यस्मादेतद्धागते यं तायच्छ कृते यत्पोर्वा आहुतेरपि दुर्गात् दुर्गायिभ्यासपुर्गिलमाणस्याय कोर्वा आहुतेर्जहो विभो नाया मनः पृथुर्यालिजने शर्तभृतं निश्चेश्वरौ गोदागुंसने प्रयथा पुंसायत्र यत् सम्यक् मो हृदमे तस्माद्युच्यते तदस्यैजन्मोऽधरं सह पृशुर्ये हेयं वैरथं कलमिनामेवदहान्दाद्यै नोपक्वै रघुपभूतं वामदेवज्यं धरान्दरिक्षय नेत्या भजवो वै वामदेव्यं पशो नैव दहान्दोपक्वै रघुपभूतं दृहत्त हरिवेत्या हैयं वै दृढिरामेव रघुपभूता सप्तदित्रायोपक्वै रघुपभूता धेनतादिवसे हमि फलमेव पक्वैरनुभूतो भक्षस्रहेच्चाहेभमेव पक्वैरनुभूता त्याः मानमेवोपक्रयत आत्मा इत्युपभूतानां वसिष्ठयिता उपक्रयते वसवो मागिता वशो नैवोपक्रयते चतुरुपक्रयते चतुष्पादोरिपदो मानवीत्याहमनुत्येतामग्रेव्यध्युतपदेत्याहयदेवाख्यै पदाच्छतमी चेतत्वादेव माहमयित्रावरुणीत्या हैत्रावरुणौ केनागुम्भमेलयतां ब्रह्म ेव्याह ब्रह्मैवपक्वयते वैर्याहद्ध उपभूता उपभूता मनुष्या नित्याह देव मनुष्या नैवोपह्यते यम यज्ञमधानिय यज्ञव सिंवद्धा नित्याह यज्ञाय दैव यजमानाय सामासामुपभूते ज्ञा वा पृथिवीत्याहज्ञा वा पृथिवी एव पक्वय देवोर्भे लतावलीत्याहको ी देवी देवपुत्रे देवीश्चेदय देवपुत्रे उपभूतो यञ्जिमाणैत्या हिलमानदेवोपत्रे अरु देव यज्ञायामुपभोतो भूय विष्करणमुपभोतो दिव्योदैत्याहारामा पुत्रावूयोः विक्षणमन्तु वग्रोकविष्यन्था मेदमदे यज्ञस्य प्रियम् भावोपक्वयते विश्वमस्य प्रियमुपहोदमित्याहासंवक्षानमेवोपक्वयते िना त्रयमादत्ते काममेवात्मना वजूनामादत्ते रक्षन्द्र कामम् वजूनाम् त्रयच्छति वाचस्फलयक्त्वा बुलम्ब्रा स्वामेश्चाहलाजमेव भागधेयेवेनादिवसफलयक्त्वा बुलम्ब्रा स्नामेत्ये च भवति हयवेशबलभक्तम् पशवक्षबलभक्तं यद्भवता ैजलग्नो जूयाद्मानस्यापदग प्राहुरं गाश्चानेत्याः परोक्षमे विदवसत्पदग प्राहुरं गाश्चानेत्याः प्रकागच्छेत्राश्चन्द्रिपेर्थवेश्चन्द्रिदक्षिणान्तलादिये दक्षिणान्धलादिवाहेतजन् छिन्दन् ेवताभिच्छन् अभिनमगच्छन्त कल्पनान्न इदमिदम् भवेक्ष्यमगं राजयिष्यामयिक्षन् कस्यानिलकंस निगमेन सम् मात्रमवद्येज्यायो रज्येण द्रौपयेस्तत्र यदुपदृयाभिजधारयणुभयद्रज्ञत्वारिप्यावकाजाभिकारय ऋजेनमानप्रतिष्ठेन मति हरे तदनै यज्ञश्चाभिरुद्धेनग्रेण परिहरय चेच्छाप्रा प्रवृक्षपा गोदञ्च गोहितम् देवाः ब्रुवन्दिरा अयमाः श्रियोगा अयमभूतिहितद्वृहत्पदेवर्यः ृहस्पतिरिक्थम् क्रिमारिष्यति मन्दमगस्योर्यस्य त्वा चक्षुधा प्रतिवश्यामीत्य ब्रहेन्द्रहितो यस्य च क्षिञ्चनभिनस्ति वादिभेत् प्रति गृह्णन्तं माहि गन्विष्यति विधेयश्च बाहुभ्याम् भोत्साहस्ता भ्यां कृहाणि चन्द्रवेदत्पोदय वैन ब्रह्मणा देवताभिप्रत्यगृह्णात् स्वविधेत् प्राचन्दं माहिकं ऋष्यते त्येत् प्राख्येन प्राष्टानि चन्द्रवे न त्यज्ञै राख्यं किञ्चन हिनस्य णे जिगेद्रम् हेट्वागेतस्मा प्राणामम् जिगत्साम् पराश्चिगित्सा प्राणान् वृषदेवदं वये प्राणामुम था नोन्तेुत्तरा सामाहुते माक्षिपराणि वक्क्ये सरिः यज्ञश्च पदवः परोमेवावरुन्धे ब्रह्मन् तथा च मयित्राः प्रेसरे यज्ञश्रितो यत्र ब्रह्माय प्रेम यज्ञशिरस्वर एव धेन स्याद्रोया प्रेम यज्ञश्रिलस्व यैवेन गुण्टम् प्रयच्छति प्राहेत्याहत्र ब्रह्मेत्याहतय ब्रह्मक्षत्रयज्ञं पारित यज्ञवयं पारितां पारेत्याह यज्ञायत्मने तिरक्षये राजसमाधास्ते ब्रह्मपादिना देवता अथ के च देवालीषन्धागुंसी दे विद्वो या गायत्रेन्द्रगेव स्वल्वा भद्राम्भनाविषन्धागुं सेवितामेव लद्य देवानाम्बालिष्टा दे देवता दे आसन्नथा गर्भो जग्दत्तं देवा आभुगेन्दरणो दे या चन्वरिन्द्रो याचाने ेपरि यज्ञप्स्याभिन्दयद्वजासेतरुद्यावा ऋचिते भद्रमभोजित्यैरजुमेवाणै यज्ञप्स्याभिरङ्गमयभि्यावारुचिते भद्रमभोजित्यैवन्द्रोजाणमेव यस्याभिरङ्गमयत्यावाचमुत नमोभाकमित्याहेदमध ेत राहो पश्चत दिवपृथिव्यो नित्याद्या वा पृथिव्यो ज्ञवपश्चेश्वनिज्ञे यजमानज्ञा पृथिवे स्वामित्या राजे वैतानाजस्वभ्यवधानाजै प्रमादिपजमानस्यामीयते य प्रथिनाशप्रोयात्मैव योगिनाविद्यज्ञम् हयत्याहयात्मदेव यज्ञश्चाभेक्षाः यमानवृत्याह यज्ञश्चैव स्वर्गम् लोकङ्गमयत्यायुराधाः ते सुप्रजापमाजाः चैश्चाः कामाजाेतुमाजाः तैश्चाः प्राणानेतजाता प्राणानेव नान्तरे विवनेव श्रवणते वयमज्ञेय मानुषायित्याहा श्रवणते वयम् मनुष्ये चेतना हेहगर्वामश्चैतन् च नमोदेव देवताविधयाश्चनताभ्यो भयेभ्यो नमस्तात्मनो नास्ते हेवागै ते संयुं भारः पश्चमग्रवङ्गमन्ना यज्ञदाितो ग्रवेश्वरङ्गणे यदेवाग्राह्मनोक्त श्रद्दधानो यदा देभारे यज्ञस्याधीरसरे स्वाक्ष्राह्मनोक्तो श्रद्दधानो यज ते संयमेव तस्य भारः पत्रै यज्ञस्याधे गच्छत्रे तन्मणे च ब्रवे ै शतेन यादयाज्यो लिखनसहस्त्रेण यादयाज्यो लोहितङ्करमद्यापदप्रत्यव्यंसोऽकन्न प्रजानाति ब्राह्मणायनापगुले जन लिखं यां लोहितापताहेन साभदितत्क्षञ्जो रागये म इत्याहयज्ञ संज्ञो राव हरित्यामेव ज्ञायपात गर्वदत्तसाङ्गत गर्वहितं तत्रा लोकायचि देवानायां गृहलिङ्गे जानिवा एतद्यज्ञश्च प्रियदेवराज्यैनप्रयायिव्यन्द्राज्यै नवत्रेभ्यञ राजा समनोच्चवद्य राजानामसाय दत्यस्वाजासो नित्वाय पञ्चत्राय न वै यज्ञः पञ्चमेण पञ्चप्रयाजायिव्यन्द्रैवत्वात्रेभ्यञ्याजामिष्टयः पञ्चमम् पञ्चमे नायन्ति पञ्चमाभ्यन्ते ेवभूतमागुण्डश्वाजुम्भे रीरिवोटोर्यवागुण्डश्चागोजो विदुप्तः स्वर्गस्वार्यादि स्वगुम्हयज्ञो न बाहुता हितायज्ञयोधुवः अयमज्ञस्तः श्रिमवाजश्चिः ममोद्धानवेदगीनानाम् अन्ये प्रभो विधानवत्सो हे दीगो यज्ञमङ्गिलः प्रौनमभिद्योपनित्यया ऋक्ष्णोदस्पतिदत्तते याज्ञेरता चक्षतः अयङ्गमहे मानो देवानाम् त्रिषः प्रश्नाशीरिपोत्सन्नः ष्टयः पुयज्ञे सन्देशितोरयम् कुरु बाला अष्टिन्महायि क्षिव चला सामगुमार्तागुम्बारित ैव नवः कथा यत्तम् नरिः स्थाय कृते महोदय प्रजापदेवानपोषणेन दत्तविधीमहि वृषन् सदारे हरिहे अत्तवे खगुंसा भिगितगौरविः स भत्रणीतेन्द्रिलमीन्द्रदेवे ददत्तमभजम् गृहीयाः भित्सम् आचरन्था रस्मैकैन्दो हवि क्षितिचर्या सैना साराभ्योग पातम् च विक्रमणम् च विष्माः परिहिषलोदत्र भयम् च विश्वस्तरः स्वन्यास परिहृक्ष्युश्रयेषुरस्तु बन्ध्रुवन् अवन्तस्मानेय रामराजुत्पराग उन्मध्यमा पितरः स्वान्यासः असंज्ञाप्रज्ञास्तेणो बन्तु किलोभवेषु इदम् उपदासये नूनगुसु वचनासु विक्षु अथायथानस्पलपत्नासोमासु करणाः विमुक्तता सहक्षामारुणेरन् यदज्ञे गव्यवाहनविप्रेरणः स्व्यानि वक्ष्यसि देवेभ्यक्षितभ्या समज्ञये झितोक्षव्यानि सुरभे कृत्वा मानाहनभ्यजाते अक्षन्नभ्यत्तयता हवेंसि मानये गव्ययव्यमो अङ्गक्तभिधानः यागश्च देवा बालसुर्गे च देवानम् वदन्तिमत्रीरोः आत्मा मन्त्रणा आत्मनिषत्तामहन्तै नाराजनः विषामादयस्ता अन्यः विमदै लोकैरिहमाजयस्त्व शिवस्पन्तगम्भुवेजः पिता यज्ञे वैशिक्ष्या निगद्यनपद्मा सर्वानासः शेषानाम् वयगुम्भमतो यज्ञाने सर्वमहसे प्यामा द्वितीयगाण्डः सभातः न वदेत् कामम् जासृजय वितभोदश्च दशसन्तानसृजदशो कामय स प्रजासृजय ऋतद्वितीयमरक्ष रसवजाजस्य सृजदशो गामयतप्रजासृजय वितृतीयमरक्षदशयतन्ते कृतवादमक्षत्तमवदत्त प्रजासृज जयत्तमश्चत्वादे कृतवादं मदति प्रजा एव तद्यजमानस्सृज जेयद्वैवे कृत श्यचास्माक्रामभिजेत्यं मनो धैव्यं चक्षुत्वरिषादिक्षे नाम्यानाक्रामदिनाक्षीरन्नः राज्ये द्वेजो बलम् the न्तर्भ्यं किं देत् बलं दत्तौ जो दत्तबलं दत्तमा मेक्षां पादपो सर्वभिमात्मं सत्त्वेनाक्ष्यौ जो बलं नवेच्छान्तो निर्भ्यन्तज्ञरश्चले वयगुं प्रक्षायम् तिरं भद्राजभिष्टय हम्भवे देवानां हस्पदिष्वदेवान् पार्वते सगेन कुम्भम् पारयत्रमगन्मय भगजनं पृथुर्या इत्याहदयभगजनकृत्य लुसुर्या आलश्च योगेविश्च देवायन्तपोर्भगित्या हविशरणश्चेवादोदयन्ते यद्रां धनायता न्तरम् जगत्याः क्षामाभ्यागत्य जगदन्तर विजो विजते राजस्को जन जैनेत्याः एष दे गायत्र भाग जान्द्रास्त्वम्यक्षया देवमभिमन्त्रयित्वागच्छान्व्रक्षैवतिष्ठति ब्रह्मवादिनो वदं दिनप्राक्षं दिनजप्रक्वदानो नृष्ठमपि यद्द्रो रात्रि अवृक्षे सदा भवतु उत्साहमरिहोने वेदानो न प्रत्यष्ठानि एवं मे अत्रत्यैव तिष्ठदियो मार्य प्रतिष्ठान् मे अप्रत्यैव तिष्ठदियो मन्ये नाम विक्रम्य हो श्यामे देव तिष्ठन्नाश्यामे वेदा प्रतिष्ठाले मे अत्रत्यैव तिष्ठदेन विक्रम्य योगात् तस्मात् मानप्रतिष्ठदाहो भव्यं वरे ेव भवत्यं वायव्यमस्य पञ्चमसो त्वं ज्ञाद्वायव्यं बालवदं बाणं वारभ्या श्रावमानभ्यादेवनेयो मात्रयच्छात्रपात्रमक्षप्रति दत्वा मा भवत्यप्रजक्षिरस्त्वमात्रजिरा ुक्थान्यप्रदक्षित विदमानो प्रदक्षितोनश्च प्रतिष्ठाय मदो च प्रतिष्ठा सोमस्त्वमस्य ब्रह्वारेण्ये यत्त्वमत्र कामय वित्रवित्थमन्त्रिप्थानिष्ठल्योः श्रीचन्द्रायेवगत्वारं यज्ञमुखगं हृद्धा ने हृद्धा प्रञ्जा यज्ञमधुरन्त भज भज एकम नः जगमये तव आदिके भजमान् पुरे दमलन चन्दाय बेदरे विदस्य वस्तवान् अयम हरे तेनैव कृनम भाग्यन कदो शीघ्रमानोपा आवरिजो हितमानम सारे सदभिदर्शन तेरा महवये यहाः पदस्तम ेवस्याङ्गम् मन्त्रम् मागमयाच्रियमानस्येताद्यश्च प्रत्याख्यायमध्ये त्रैव संयस्तान् नाम एताक्षिमार्चिभुविरङ्गाध्येन नमो वृक्षे वेधानम् वृङ्केताय रात्रिमाच्छन्ति अनुमन्यताम् शिवम् पशुम् पशुपते अद्य तभ्यान्यज्ञेषु कृतस्य मध्ये अनुमन्यस्त्वजायजाम् देवानाम् निदमस्तु हव्यम् प्रजानम् तत्प्रियगन्धम् विपोर्वे प्राणमङ्गेभ्यः परियाचलन्तम् वयाने चक्षुषा च व्यस्तागुण्डे प्रमोहाक्ष्देव प्रजापतिप्रजगाण्रो काविरोपाः सन्तोपेकरोपाः आयस्तागुण्ड प्रमोहाक्ष्पदेव प्रजापतिप्रजगान्यदानः प्रयजमानाय देवाः उपासुंसमानैन्य त्यार्थम् <Sessly> च <Sessly> <Sessly> अमेनाऽहं कवेन सङ्गच्छेम देवसेन विदम् आचारः परं तवन्दवन्तः दैत्यवलयते हलगेपपादं प्रमोक्षेरन् नरपशव्यत्मसुदशे धारोमि आराध्यं तव महान् क्रमोदयं दक्पक्तकल्पविज्ञानविकासम् पालोते एव तेनाचार्यानुसतां कर्तारमगरेज्ञेनिन्ता स्वाहा पशो नेवासु संयन्वारभेदो यजमानस्याना प्राणो यजमानस्य वचुने यत् वचो माल्यमजोः विधामि णायामग्ने <raid> बुसेहलाहरिवक्त्राय ज्ञा विया मायज्ञाङ्गेन्द्रिया यथा देवतमेव यज्ञमुपजनदिनदेवताभ्यावृत्यं भवति हिरज्ज्वेन्द्योदिषा सह यायमन्तरिक्षेणते सह या सहसौर्येण ते हिरद्यो विवृधत्तो यक्षते देवता गायत्रे शङ्करभागं सा पात्रैव नृत्यच्छन्द्रग्रामस्य पात्रमदेन्द्र देवता गृहदेशन्द इन्द्रमायुवा पाक्रमगृहदेवता नृत्यच्छन्द्रो निर्णगाप्तामत्यस्विनो देवता लङ्कृच्छन्दस्मिनो पाश्रम देवो देवता गृहदेशन्दशुक्रपात्रमधिगन्द्रमा देवता भगवगृहदेशन्द्र छन्दत्मेन गुणात् प्राया यत्वय त्वागायत्रो प्राणापालौ माता प्राणापानयोग्रायच्छन् देये समर्थं वेदाय त्वपयजायच्छ छन्दार्गं शिवेशं वेत उपवेशवाच्यन्दार्गं शिवं दे प्रज्ञानि भवन्त्यभियुच्छे मदस्थिरेण मन्त्रे कजमावरसंरध्यान्तरे चोतं वा नरसं धनं फलिक्ष्य गृहभोता शरणान् वि ेवदाभुङ्करिकामस्कामपरस्तावक्षेण यज्ञ चतुर्भिक्षदेव रक्षायम् मे दत्पयदत्राणम् मे दत्पयदा बाणम् मे दत्पयदध्यानम् मे दत्पयदश्वम् मे दत्पयदश्वात्रम् कर्पयदवाजं मे तर्पय परात्मानं मे तर्पयताङ्ग्रान् मे तर्पय तत् प्रजानं मे तर्पयत भयोन्म तर्पयद गृहान्ये तर्पये तर्पयद सर्वगणं मा तर्पय तर्पय समाघणा मेनागतसन्तोषुनाभरे ेव्यामस्याभिजमानस्य प्रथमो गुरुश्वरन् प्तश्चक्रन्द्रोजल यमानोच्यं वच्यं वदे हस्ते वदे सभायमानोच्यं वच्यं वदे गदान् वदे नन्दनं तान्धिनां तान्गु सोभन्ते आचारोत्थानस्थानपविमसो देवा नेवदते वदे सत्यवदे सभायमानोच्यं वच्यं वदे सत्यवदे वदे सभायमानोच्यं वदे यत्र प्राप्यते परमेव महानां प्रथमानि वेली स्वनलोमरीना विष्णशम्भूः अणपभाव त्रियंगघात प्रायसंतक्ष रक्षकाख्य कृष्णदेव मदनविन्द अस्मान् अख्यं विनेयय नरदेव नदक्षः आर्य संदप्रयमे रामदन्त वयं देवानां सुतौख्य इसन तर्वी यदू तवनं कभेना रुचे मैगे तरवाइने इंताः तेजो धन्बनाः सुपराः शानाः स्वित्केन्ना अधिरबी जवराईन्दों आज़तनते अर्वा अन्या आभोईवा होव्यंते यदा देवसारे वितों स्यागे ललना भृगिरा इतनलवेस्ता स्यायतनवानं पदे येवं गेतां तो स्यावामृगेन तो न्यनक्किदे आरक्त्रवगि बनेन गनवषये भवितयेवं दैजनेन सुभावनं जलगालभां तिक्रक्तकदे चो मत्चो गायक्कोदगौ सरे संलक्षये आ ब्देव सप्तमासे लग्नम् सप्तजानं ब्राह्मणं दोहिं लोकैत्यं भग्नम् लोकै ज्ञ भात्रिमालेन्द्रवेश्रहे भात्रीय भात्र ज्ञणोश्चेदमेव भोजा पञ्चसभाचस्पदयते वा यद्वाचो मधुमस्तस्मिन् माधा स्वाहा तरस्वत्यये समर्थय गायत्रेण रथम् फलम् बृहद्गायत्र वर्तने यत्र गर्भस्कन्द्र अपुंसभागणयोपस्थाय अध्वर्योर्वाभर्यत्र भगित्रा स्वाहा सिवृषव्या मंथि इंद्रदुक्त मधुमागंगहा पुनरपेदे पृथिव्या पर्यन्तरेक्षात्राः कृतमिन्द्राय सन्त्यर्वाचिकाणाम् प्रथमायुज्य देशेन सोमो योक्षव्ययित्वाहुर्वाग्रेदाग्रये देवे सोमयिरमयि शैरमाचने पदज्ञमुखे युमजिवाेतजश्च क्रियते यद्ग्रहान् गृहे तावेश्वरमानगु सर्पन् विपरान् चोरियं विपरादेव सुबदेवेच्च पुनरे चोपतिष्ठत यज्ञो देवष्ठतु यज्ञमेव गर्विष्ठा हन्त्याक्षिरमित्या हरिवाशिवैते अग्निनाम् अवमागुम् अग्नेऽपि मागुम् अस्मि यज्ञो निर्वक्तविभक्त मह्यः हिरावागुम् जेद्वासुरत्रे आत्यायः प्रसन्ते हिरत्वत्सानमग्रिमम् विप्रोपमुखत्वये आत्मागमत्वकेवलः सन्नः तु त्वत्तरराणस्य स्वा हितो विरक्तम् मन्यस्तु लक्ष्म युक्तग्राभाजाय जय देवकामः शिवत्वस्तो चिशङ्करोधस्तु भगवयोच्चालिष्यधुनाधिमस्मेवानामस्य ीमहे ह्यस्य व्रजम् पशबाल्यम् चिदर्भे यस्य व्रजमतिष्ठम् ददामः व्रजे पुष्ठिवित्तम् करप् भूम यम् दन्तगुण्डत्वम् तमवजय श्रीवायपृतष्कुजयदेवानाम विश्वसा युदत्व हव्यमाहृतम् प्रजान्ते विजिनः गुरे कृतो मा भवतोमये ये हरित्े जुहोतना इन्द्रम्पतये भवता नाटिमोत्सन्ते हिरण्यगजीमा शनिभ्राजाः आदेतुमर्णापीनम् देवोनो नामभो याभिन्नमानाभिनाघात्पतम् च निहत्तनयम् चभ्रात्रेवन्यमातासि शक्ति हेयम् दैत्य सद्ये परवास्ते मय वर गोविन्दाय जगत्यस्तानुरेत तस्मै नमः क्षत्रे तमारु गर्सि वन्डामाय वदतेन गोधरभये अधिकं यत् तनेन समासाहु धर्मधार परदी धारखेना ऋतयम सुपरेगविदन्यं जगौ समाभवं त्वद्गनानि पादाः तुन्या शिरसि धाके वदनयवसे यत्रे अजरवणा वृत्तम् तित्वसः विश्वनिम्भत्ये सन्दभृच्छम्बदोदये धम्प्रम्बदस्वस्य धाराणाः हर्वा नेजेन यत्रमेक्षितानः चिह्नम् चपो मरुतः जिन्तेगद्राम् सुन्द्रायामेव जाया ानञ्चमसुदत्रा नवंसमुद्रवासम् एव भुजिम्भुवे अग्रगुंसमुद्रवासम् हयवादस्पनिम् कविम् अर्जन्य क्रन्त्यगुंसः हिगुंसमुद्रवासम् ओ योगै पवमानारोहा धिका यत्र चन्द्रामत्वारभ स्वखिमासं कारयत्वारय स्वीनासं कारय चन्द्रानुखि मासं कारये चा है वै पवमानानामन्मारोहामारोहेन पवमाने प्रयाम योगे भवय प्रीयमानस्यैकीयमानं नभः जगत् परित्राणं परमविशेषं स्यात् यत् एच्छान् सवनीकं विश्वे रत्त्वा देव नेगेटिवो दमरं तं प्रमाणं गणपदत्तमं तनादि धर्ममायुरे जनपुराणि भत्रे हि देहसुमान् भवति विन्दते प्रजाः व नमवलुम् पञ्चमकंशुभन्दुपाकं सुकंसपायुं सुपात्रेयकं सुमवाश्चेल्पनान्यसुमन्त्रि शुक्रवन्ति समावत्येया समुद्रौ विततावचौर्यौ पर्यवत्ते चेखले पपालाः अश्यम् त्वयञ्चन्यमश्चयञ्चन्यम् ह्यसते बलदे वस्तके कक्ष्य श्रीविष्ठा भुवनानि विद्वानानि शिरोधार्येत्यभिन शुक्रमागत्य अनुधा देवाय तम् महायज्ञमपत्यन्तमदन्तज्ञहात्रञ्जमपरिपौर्णमासञ् यज्ञमज्ञे लोहेयम् प्रथमगुर्वदधाक्षेयम् प्रथमगुर्वैस्वेवम् प्रातस्तव कुर्वदवर्णप्रभान् माध्यन्ति कृतीमे रामसुराय च मन्त्रादिकारम् सन्तम् मान्वनायन्ध्या वा इमे देवा अभो बन्दितो देवा अफवन्तनाधुराय एवम् विद्वान् सोमे लगदेवत्यात्मनात् शब्दातु्या भवति परिभो यज्ञम् परिभो इन्द्रम् परिभोर्विस्मारान् देवान् परिभोर्मार्गम् सह ब्रह्मवर्तय समःङ्गमेजम् जना यदेशगौराजन्मोजिरक्षाच्छन्नस्य देव यश्च राजकोजस्य स्वतस्य देवक्षी यतस्य लिरमम् नृजे प्राणायमेव चोदावर्षे भवता बाणाय ज्ञानाय वाचे न ोदौ वत्सेव वे पार्विश्रोत्रायात्मने जयुषे देव्याय विष्णोरिन्द्रश्चैस्वेशाञवाना जशन मिवत्सो न मे वत्सेववत्प्रो शिवो नामकस्मै पाकायपायन् श्च मे गास्रस्य मे भक्ति गतस्य मेलं जय प्रजापदलयज्ञ प्रजापदत्तमे वदन्वयति वने मन् दत्ता भवत्याभिभवने ब्रह्मवत्कृत्य प्रजापदलयज्ञ प्रजापदत्तमे वदन्वयति वने मन् दत्तो ब्रह्मवत्यैनाभिभवद आमयाव्य त्रयः प्रजापदयज्ञ प्रजापदिष्टमे वदत्रय विभजेन दृष्टयुषाभिन्नवे पात्रयः प्रजापदलयज्ञः प्रजापदिष्टमे वदत्रय दृशयनं वृत्त प्राणापाणाम् राजोदक्षक्रमुभ्रा सत्सर्वि जनसत्यः पर सर्वे जः परसुर्णः स्वस्तिः यज्ञकृतस्थय मात्रनि यज्ञमुपक्वय भ्रमुपमा ज्याये क्वय रामकलस अज्ञवा उपयज्ञ उपमाहात्रा उपभये हन्तस्मा रेवनमत्र चात्माना तेन वा रुद्राय सयमप्रत्यास्मानमत्र चात्मनास्तेन महेन्द्रायणेन्द्रियं वा निर्वसे हात्रेयमायुषमय मेतान्द्रियस्त जानिदा यञ्जयस्ता विद्वान् सर्पदिनसदस्यामेतावे देवयञ्जिता एवं विद्वान् प्रसर्पदिनसदस्यात् किमाश्चिरमेशे मार्गं हसत्तादयुं स्वो दिव्यालयं हसत्ताद्वायुनं दरित्या पृथव्यायमृदभ्यस्तहस्त कन्नमत्तर सै नमस्तरमस्तक्षुषै नमो देणस्तो दान्यश्च ्यगच्छगम्पातं वास्तरे पृथक्पन्दम् पितरालप्तयाभिगंसिनः प्रदक्षदक्षिणाकन्दवितरः पितराङ्गयम् विश्वासि भोजासम्प्रजभोगया सूजम् भूयास्त्रै Okay. क्षे हिमाविषये ध्यायुक्ताय गङ्गाय रायकोधाय वत्से सुप्रधात्वाये हि वसपुरावत्य सङ्ख्याचण्डलक्षसन्तादेव सोम सुरक्षा अवक्षैदं मन्त्रादि भोगच्छैतज्ञानाम् भाग्युधाना सोमश्च दक्षणमन्त्राच्यति विरणाभजे भाग्युदाना क्षाराज माध्यशाम मसुमग्जनश्च राजवंशवेदस्य भक्षयामिश्वरस्वयन् महाराजस्तत्र भविमो विराञमाविदृशः शिवो में सुपेनामृता वजना आत्म निंदा जा yah kstaya jyotse navasva astas tas tas kstaya hai va legenda veda chamamadharpaho satya bahu tara kstaya ni सुष्माजनम भक्तिदल जीवाय नमो भक्तिदल प्रधाये नमः भक्तिदल धन्यवय नमो भक्तिदल भोलाय नमो भवतिजेतस्मिन् लोके स्थलिष्माजयस्मिन् लोके मान चेतस्मिन् लोके स्थलूयन्ते वधिष्ठा भूयाश्च वधिष्ठा भूया सम्प्रजापदेन स्वदेताम् यज्ञा विश्वा जाता निपदिता प्रभूराश्चै शुभवस्त अस्त्व वयज्ञामलयोरयीनाम् देवकदत्तेन स्व वैन नमसि मोष्टकदत्तेन स्व वैजनमसितृदत्तेन स्व वैन नमस्य वामगेवरस्यैष्टैरुदुरस्वामस्य दत्त्वा भक्ष्मष्टस्य लैव दृढक् भक्षम् च दस्यापहो दस्यापहो च भक्षयामि योधरिणाम् तमोध्येनाङ्क्रहम् कृषवेनाम् सप्तामेरक्रमे भोजर्द्रान्धरेण वध्रतान् प्रत्यमेतत्रक्रमिण मार्गम् ज्ञाज्यो निर्जनेष्मानम् प्रत्यये दुग्धैपे ज्ञालापृथगे पठित्वा यावत्य सप्तसिद्धमो विदत्सो Tāram darendra vegraham sahārjā gandhāmya svadam यस्य समकृशलाज्य मम भृजे श्रोत्रा अस्य प्रमायिकात् यस्वाजय चतुरस्वादोस्य पशः प्रमायिका स्वयस्कन्दे चमायुगस्याटलाज्यम् पशवामायतस्य स्कन्दम् ऋयस्य प्रटला ज्ञस्कन्द जयत्कृषलाज्यम् पुनर्गृह्णादि वजो ने वा त्वयि पुनर्गृह्णादि प्राणो वे पृषलाज्यम् स्कन्दगस्य मृषदा ज्ञस्कन्दृषराज्यं पुनर्गृह्णादि प्राणमेधानर्गृह्णादि हिरण्यमवधाय गृह्णाच्यमृतं मे हिरण्यं प्राणस्पृषराज्यमृतमेवास्य प्राणे दधाय सलमाणं भवति ददाय पुरुषस्तरेन्द्रियप्रयच्छोच्च स्य यज्ञश्चयस्य बृहता च्छन्द्रिवे तव्यच्चापृहग्रन्थादेश्यादैवज्ञकौ सम्प्रभाते ब्रह्मादिष्मस्यात् सत्याः आदिनत्रम् लुवत्या आहूदय ऋतञ्ज सत्यञ्च मदलः पुरदेवस्य पविलप्रभवे पुरस्य पुनरमस्यो जन्मत्यज्ञः पुरन्तु भामा पुरस्य पुरङ्गम्या छत्रस्य सप्तमस्यो जन्मश्यग्म् सत्रम् तु भामाम छत्रस्थत्रेमे प्रया सत्या अस्पमलेयोगी हं विद्वानेन देश यद्यन्त हेसयष्णीयान् भवस्य पुलमस्यो जन्मशग्लं सु हामास्य पुदङ्गं या सप्तस्य सप्तमस्य जन्मश्यकं सप्तं तु हामा त्वस्य सत्रङ्गम् यादित्या हैषवे विद्वान् यजने शयनाय वत्मने स्वाहा लक्षयमभिगोक्ताय नमो विक्तं भागधन्मने स्वाहा लक्षयमभिगोक्त्राय नमः प्रय स्वाहा लक्षयमधिगोत्रायण नमो देहोत्राणाय स्वाहा लक्षयमधिगोत्राय नमत्रय देहोत्राणाय स्वाहा यामकम्पन्ता <Sessly> नामतो नमो नमः, ्यान्त्वमुपान्मन्यमानः कालस्य विद्वांसरेण हि रगेणश्च कृपाण्डेषाम् संविश्वयम् मन्त्रमञ्च स्वयक्षयन्वोः चन्द्रया इयम् च रामभयादृष्ट्यै स्तृष्टान्त्रणो विश्वजम् यज्ञगतो यज्ञता मानस्तु देवा कामा भो दक्षिणादयश्च स्यास्ते सर्वे दक्षिण्याश्च दक्षिणाैद्यो निश्चयद्वये सदस्यामेतदक्ष्मीनाम् कृष्णे मास्वपुरुषे श्रीस्तदयमाधिरा दम्पती वा नमः कुमारान् पुत्रवजायते विन्ददेवस्त्वे अरणागे सते गृहः या दम्पते वामस्तु वाञ्जः सुमकक्ष्यमाणीन्द्राजनकम् सह कुम्भ्या आरेण मनः मनसत्प्रजास्तविषदं तथा जत्रवि नगं सर्वत्जं संजगम शास्त्रनिबहवाहिनरगणवानो अन्यागं अधरान् पवत्साय बोलासि होतैनां रामो समोतमो ज्ञां संत्याबासुदिये ज्ञान पालयन् हनमिष्ट्रे अरे वरेहिस्तम जगत यहां कैफे सन्न यद्वर्यमभ्यामेण महित्रभक्त्रयत्रिक्षरादिहत्रा दनं यत्रपदागायत्रे गायत्रं प्रादस्तवनङ्गायत्रियै हत्रा देवज्रमं तद्भक्तमुक्तं राजेच्छाह माध्यन्त्यं पदाे यजत्वान्यक्षरा निजानक्षभक्षेश्व न्द्रम्पदाशक्वज्र <ài> <im có> नैव <coughs> दत्तमहात्मन्दीन्द्रियङ्गोगस्प्रदेशत्रा दत्तवनं प्रिगे यत्रेतान्यक्षराय प्रजागायत्री गायत्रं प्रादत्तवनन्तदत्तवन एव प्रे दन्दागं श्रिवं पादयत्र शौचे जोगे गा यत्री भेजत्रा दत्तवनं ते जगेव प्रादत्तमनः आत्मन्धत्तम् भागे न्द्रागन्धिकं माध्यञ्जनकुं समनमिन्द्रियेव माभ्यञ्जनय सवन आत्मन्धुःखं वा ङ्गाम् एव नेपदेवयत आप्यमत्यन्तर्तना व्यदच्छाल्लोगा कालगैव चात्यजाबुद्धेखा बुद्ध्येतगैव नौना एवं विद्वान् भवत्या प्रजाया त्याेव तत्त्वलियमानातु यत्यक्षं प्रतिघणात् समुष्यामेव तद्वयन्धते रक्षामोमेव मलियमानातु नक्षकंसहितस्मादितप्रदानं देवानुपजीवन् जगत्यक्षन् प्रतिघणाजितस्मादमनः प्रदानं रक्ष्या उपजीवन् जगत्सानासि नष्टगंस त्यन्यः प्रवेजे प्रजामध्याक्षय देवद्रमेण महित्रवक्षय विपदावत्र देवद्रमे वह्निकरोति भयागेव विभाविभामस्तय गच्छद्भवत्या चक्रा ध्याङ्गन्धान्य वयामगे वा कृताभक्तयज्ञा चक्रा ध्यान गन्धान्य मयामगेव विष्णुद विश्वा तवा ध्यान त्याध्यक्षा ध्याय छत्वा विस्तरे क्षस्तक्षामा रक्षन्दयवदृढां नेपाहिमयवदुर्गद्वचकक्षा चक्रं नेपाहिमयवदुत्तयद्वरा हि भोरधित्रै स्वरस्मेनाणं ने वा हि भोरधित्रे स्वरस्वेनामवानवा पारं ने पाहि यवन इन्द्रवायो निद्रा वरुणामस्विना इदा जकर्म यस्यस्तकम् सख्यमालितः ेभक्ता विश्वः देवमरदािरो अप्रयुच्छन् ब्रह्मान् जन्मभिनवीन्द्राविष्णो न विनञ्च धैर्मयन्तः राजिज्यैकद्रमैनाः हिन्द्रश्च विश्वाय तव प्रभेतायोगम् जितव जागवे चित्र आचारे ऋपत्रे वा नाम यज्ञ विद्वानसाः अग्ण त्रिधा हरिः न्तरेण गमीत्वा जहरिपुत्र देवाणः यस्या तेजस्व तेजच्छे त्वन्दे भोजात्येजःपन्दम् रामायुस्पन्दम् मत्सन्दम् महर्षेशेतौ रामः ेरिन्द्रोजस्मिन्नो येत्त्वं जैलेषु भोयावोजस्पन्दम् माभाजस्पन्दम् वच त्वन्दम् मयश्च युगलब्रह्मणश्च प्राक्रस्य चौरशयत्यज मान माजोहाविधं मा नामाजोहाजेन् तौर्यभ्राजगृन्धायच्छेत् त्वं जैलेषु भोया ेन्मयि मेधां थान। मे प्रजां मयि यज्ञक्षेत्रालु मयि मेधां मयि प्रजान्मयिन्द्रविन्द्रेन्दु मयि मेधां मे प्रजां मयि सुर घाता विश्वे वेदा उपघातारो मरुणः प्रतिहत्ता लिन्द्रायुधमन्देवा प्राणभृजस्थानम् वैध्ये द्रे सर्वमध्वर्योधा गुरुकण्पाय प्राणस्थानम् वेद्या हैदेव कर्म मात्मभैना क्तिश्च देवाभिगं मधुमयश्च मधुजनिश्च मधुमक्ष्यामधुमनिष्यामधुमते यत्रे हसन्तधा मुखे मुद्रा स्वात् प्रबम् दत्तैश्वस्य प्रियम्पा समुखे प्रबं विरायसन्त प्रियङ्का समुखे हिमानन्दासुके शुक्र सुप्रमासु शुक्रमाधो नामि शुक्रन्दे शुक्रेण गन्धाम् छन्धा लोकेण शोर्यश्च असक्षा भगु लोकम् शमस्य राजरे शुक्रशुक्रस्य पुलोगाः यस्य सोमागाना छ्यण्णामजामसोमा यत्त्वा भोक्वन्दे न्द प्रियम् पाद अभे मधे त्वम् देवदवत्रैश्व प्रियम् पाद अभेपश्च त्वम् देवदवधागेन कन्दसाम् जयमानाम् प्रियम् पाद अभेश्वक्षाद्य परे आयुप्रथव्याद्यमज प्राणायत्वा चक्रमदाङ्गच्चस्वतिः तत् च मे विश्वे देवावच मे धत्तवस्तिनाथे वाय देव नवो ब्रह्माधिमेतमे तद्विश्वाधिकनाक्रमि वा भवते धाता महान्ता सुते शुक्रशुक्रमाधो भावीत्या महातामेव वृष्टिमरन्ध्रे शुक्रन्थे शुक्रेण गृह्णामेत्याद्वा अन्धलोकव्यो यत्र रस्मयो वृत्यागीरन्ध एव लोकेन सोक्यस्य द्रिवा वृष्टिं चापयत्यास्मिन् मग्राशिष्ट्यवृत्याह यथा युजदेव तत्र गुणवं मातां गृहस्य लोचने बृहदित्या ऐषद्वा अस्य गृहौ लोकै यद्वृष्टे लोकेनैव वृष्टिमः दानाभ्यन्नामजा हैष हवे हविषा हरेदानाभ्यङ्गेत्वा गोमाय जदावावेकस्याय प्राणय निशोगुसङ्ग्रन्थाणस्थानगे द्विपदाव देत्याहाय प्राणहासन्धत्यै मदमधिप्राणायत्वे विहिमभिज्ञमदं मेहिरन् य पुरुषक्षरेन्द्रियाय क्षेरेन्द्रिये बहु स्पृशे वायुरधिप्राणानाम सवितुराधिपत्ये बालम् मेधाश्चातुराधिपत्या आयम् मेधा लोमधिवर्णानामभिप्रेनाधिपत्ये श्रे नामभिन्नामेन जनामाशिवत्य वामोधाभ्यो मनदस्य प्राविभो मनदस्य प्रायन्मनरुप्यत्वा भक्त्या यत्र प्रजापदं विराजमनश्चया भोज भव्यं चाभक्तिराञ्जवश्यक्तया वेदवत्येनाम् प्रत्यक्तय प्रत्ययां दृष्ट न्धरायण <laughs> ज्योतिजगित्याः सुभर्गो मे लोकजस्य ज्योतिष्वर्गमेव लोकमभिजयत्य ちゃんさえだ त्यादर्थवोषधय सम्भवन् चौषयो मरुष्या प्रजापतिम् प्रजाय प्रजायन्दगिरि पदानन्दिरक्रोधायग्रन्था यद्धक्तौषधे त्वा ग्रन्थामे जगत्मादभ्य ओषधस्तम्भवम् जयद्ग्रन्थाधे जगत्वात् प्रजाग्रन्थामे जगत्मा औषधयो मृक्ष्या नामाय ग्रन्थाय प्रजाभ्यत्वात् प्रजापदय ग्रन्थामे प्रजायन्ते प्रजा ृजदम यज्ञो सृज्यत यज्ञं चन्द्राकुम् ऋत विष्णञोक्षक्रामन् स्वोदामध्यज्ञम् चन्द्राकुम् ऋत देवामञ्जन्तामेव प्रजापदिमुपाभावन् समे प्रजापदित्यन्दताम् जेयमानायत ब्रमे दृढसन्द्रताम् जेयमानाय न्दागच्छन्दायज्ञतो वञ्च जयेषामहे कालोत्मनामना ब्रह्मवादिना वदर्युलास्त्रायि वेरिसन्तसाम् वैर्याय शक्रोया वेदत्वे सन्तसाम् वेर्यमास्त्राभयास्तक्रौषक्यजे गजामेवन्द्रमवत्रमहन्न मे न्तव्यस्य देवतारोगमेत्यन्तर्जगत्ता गरेन्द्र यज्ञाजगस्ता गौरित्या हरिन्द्रवा यथा यज्ञयासनाय जज्ञस्ता वैपदस्य यन्ति च एवम् वै गोपैन यज्ञानमपि यतव्यम् हितेव पुत्रमधेर कृता इमम् आवृष्टदेशायतज्जमानोऽन्यस्तुत्या धान्यत्रा समयेत्यायुतानयिक्रम समयेष्टम् चो यादाहुत्यैवे समयदिनाश्रिमाक्षेयमानो यत्कृषे समप्रजेत्रम् मयि येन यमश्च बलिनाचलामि हैवतम् निरमतये तदे तत्तनग्ने अनुमाभवामि विश्वनामविश्वलाभस्य प्रापुञ्जभाम् यद्धादेको हृदादेकः समधनादेकः तेन कण्नस्थानो अभिरक्षतो गृहाम समस्यैवन्नाभे भद्रयाः पुनर्ना नष्टमाकृतिः पुनर्ना महिमाकृते देवदजोषस्य विशेषणो रामसहाध्यामिकम् सहायप्रोषकम् प्रतिरजकम् संवत्पेणा ञ्जलिनाथक्रोहन्त <laughs> यत्पदाव्यस्तमपोषं चतुश्चासदेशेन हरिवं जलमं भवते हरिमापसमेषाभ्यविज्ञानेन देशभत्रयं जयोपश्रेष्ठतारमक्षातालं विद्वामेण समस्तम् लोकयुक्ता भोक्तेन गच्छते ज्ञवायोक्षादाय देशमोक्षं लोकयुक्ता भोक्तेन गच्छते यन् नोनपदा गुरयुक्ताज्ञेन पदा गुरोमेव ददा हैतन्मे गोपायदिवत्त्वं नानपदत्पदयिता वायुर्वेन पदत्पदं कायुमेव ददा हैतन्मेव पाल्य ैतन्ये गोपायतिगापुभागारितोमदेव नुशुताम् चिरप् अनुमन्यस्त्वमचित्तम् सेवानाम् समस्तह्यम् शेदानामेध उपनाहाभेदपान्यत्तः सोमश्चाधानम् पदलग्ध्या नामरामहताम् गज्जराणाम् तत्त्वयप्रे योष आविष्टामत्वभितमश्चरेकः न्तमृतस्मर्ताः रक्षम् खत्रस्य गुकुभिषित्यगानप्रलोनमुद्रो विभजरामभोजे शतधेनताय त्रिगन्त हस्ते समुच्येन क्रियन्तेजाभ्यः ङ्गान्यक्ष्णाञ्जे समजेगमम् आवक्षनवर्तय निरक्षनवर्तयेन्द्रभुता ॐिलामत्तया पुनः विश्वमानो एकेभे त्रिपदेशे च पदेशस्त्वमध्यष्टावनादिवाहा हरेत्य हरिप्रियमिन्द्रा बृहत्पते अयम् राम् परिहृच्छदे स्वामय इन्द्रा बृहक्पते इन्द्रा बृहत्पते हयम् सप्तज्ञम् हस्ता गङ्गहक्षिणम् नः परिपादपश्चाद प्रलक्ष्मादारो इन्द्रः पुरस्सादक्षिणोर्भाभिलोकामाध्यते विज्ञानवग्भावना वनन्तेनः तख्ये मादरदैतये न भज नो हस्तेन गिरीशुनो न सदानम ओहादन्तकं सुकथ बिस्पदनम तव मनम वक्मानधर्मेन तेनन्दनलस्यम तातवरादौ रयमीशानु जगदत्पहि अराखोन नेह रावणते तादा सजयया भुतराहेन तेन हाकेनमिक्कम सुभनञ्जयना भाता पुत्रम् यतमाना यदा तातस्माम् हृतयम् प्राजेयम् देवासुक्षिणा अयम् देवस्य भीमयतु प्रजातामायमेवान्ययम् तान् विश्वे देवाभो अहं विद्यानमजय यज्ञं दैवतं वन्त्यसा हज्जत्हवजमानं दधयेमयः अन्विनावेत् सम्मन्या वेतन्जलकृते तक्के रक्षगनो हि फनैलोकं जिदारयतः अनुमंग्यनाम वान्यमहाराजा प्रजां जगूये रक्षयेमानं तक्के वयगं अरेण विनातिभव तथानां देवी कुतभासंमयत्तो यस्याजम् परिभोजम् चायवः यस्या उपस्थमुपम् दक्षपम् सानो देवे शिवभाशर्म यच्छतुम् शुभवाकम् सुतेभुजयशुभोत्मना श्रीव्यत्याच्छिद्यमानजायमुख्यम् श्रीवायुवाणी भो भागुम् सुभगानाम् विनापदमक्षिणे सुभगानाम् च भगिनिवनम् चैरिहमिषाम ीव्या नो हत्याहरिषत्तिकेज खलम् नाशोरायश्वरेन्द्र स्य लिज्ञोतिविषयित्वा हृहत्पदिनामेवाख्यप्रजापतिनाथे शब्दुं दिवानेतत्पसुंशदेवत्याहदे भीनामहत्याहेत्याह ब्रह्मेव न ृत्याहेन्द्रन्द्राहारे फलुन्द्रजेवेध्यायिक्षञ्चमश्च ेन प्रधाभ्यन्नावत्यनामध्य पुरक्तान्नाभ्यान्यै गुवृष्टारण्य पुरक्तान्य रिमित्तरिक्तयस्त भोमार्याप्युस्तस्यरिक्तस्य उपोपे विश्वमानः उपोदयम् आगोरोकामाय प्राजे स्वागिखिराजे मनः प्रजापदयेत् स्वाहा प्राणम् राघवेत् स्वाहागिक्षिराके रक्षत्रोर्याय स्वाहा गिक्षिराजे स्वाम् जानावसुले सा गाः गिक्षिराजे वाचकुम्बरस्पत्येत् साहाम् सुलीया वचुले वसाधनगर्जत्रा मनसागर्धय न्देजप्रक्षिराकृनभव जलारे व्यञ्जनम् मनसो हेरभिप्रजापते भूयास्मास्थामचराभान्तरम् स्वभक्त्राजमे प्रजापतिराकपालमपक्षत्रेणैवीनाक्षेण त्यञ्जले भक्त्या मालभमानाज्ञाकमालम् पुरस्तान्दगे लग्ने नाम सत्पायव्याय जा सत्पाद्यावाद्याय त्वा भक्ता जनैरक्षालग्ने गौमीराय भागवदत्तस्पति यत् प्रजापतिलग्ने तत्पायावत्यावागत्या मानधय भोजिनामा भागं वरे क्षयविदेवता वायुमेवत्यैनभागेनोपधापति देवी भोजिङ्गमय नित्याला भावधय कृषमाणप्रशित्साकामो दिवयेन त्यस्यामोषो हिमध्वगमश्च सत्यं भवत्यज्ञेभे जय कामये कान्नवान् नादस्या नित्यज्ञमवरुन् ने जनस्पति बृस्पति मेभस्तेन भागधे न्द्रायामत्यामानभे कामगेतानभिजदमभिषय प्रजामभि सर्वा देवता देवताभिजदमभिषयति वा यज्ञ लोकागवति वायो देवे नाम परुध्यानपदागो हे स्वाकामायक्ते रत्याह यथा देवे त्यक्तिराकारित्किलायत्रा ्यास्पदं नियता कालं जहो वृक्षां जानान्तरो लोकङ्गमयतित्वं पुलेगाभे मतागिरेत्या हवत्रे वेनाङ्गत्यागदमानस्य कामाहित्या हैशवेकामोहितमानस्य हैश्वर्यवेके लोकेष्ठापयतिभाजितं सन्तम् ैव जनगायिता एतस्यैतस्याकेकमेवाचरवयजनधायामभ्रभवीयारब्धायामभ्रक्षाः प्रदेशे सर्वान् याजत्वप्रदेशे संभक्ते ेव प्रान्द्रियमेवान्धवानामेवाव्या एव चित्तम् च दृष्ट्यश्चाको सञ्चाको दिस्थ्यविज्ञानञ्च विज्ञानम् च मनश्च चले सदर्शस्य गोष्णमासश्च विरक्षरम् परञ्च प्रजापदर्शयाम् प्रायत्तैकस्तवणं दाप्तव्योपदेवादुराच्छाभप्रजापुकाभायच्छ लोभै देवासुराजगणगन्तजयानाञ्चपद्य स्पर्धमाणे नैते भव संज्ञायक्षेवताम् प्रदनानाम् भुवता नाम जगलिस्तमनहत्तिन्द्राज्येष्ठाना यमप्रथुर्यावायुरन्तम् पर्याप् ब्रह्मणामित्रनाम् परमापायम् समुद्रप्त्यानामन्यजम् साम्राज्यानामजिवन्नावीनायम् सविता प्रसमानायम् उद्रप्मान् सत्कारोपानाम् कृष्णपर्वम् अख्यम् ब्रह्मन्नख्यञ्शत्रे शत्याम् पुरोभायामख्यम् ब्रह्मस्याम् देवोक्ष्याम् हेवाले यद्यज्ञे कुर्वदेव देवादेशानभ्यापत्यन्तानभ्याचम्बे देवानाम् ेदाक्षरच्चमो रव्यारुद्धा केवलेन कर्म नायकृष्णे समपलं कृत्वा लब्धाय प्रजापक्षयान्ताय शत्रयाणामत्याे आक्रमानकृतौ राष्ट्रभे अभ्यासाने कपुनामभ्यासन्वद्यादानानामभ्यासामत्वङ्गजेरयन्तज्जयाङ्गे राष्ट्रमादद्राः को राक्षव धर्मस्थश्च <laughs> स्वगम् नामागम् सर्वत्र सामान्यश्चायस्वम् द्वेत्परेणागत्यम्बम् नृत्सर्गम् सर्वत्र परिष्णम पर्जन्यो गन्धर्वस्तस्य विद्यो फलसोदृतोसर्गम् सर्वत्र प्रजाः सर्वे कालो गन्धर्वस्याः परसोदयम् ब्रह्मक्षत्रम् पारदायम् ब्रह्मक्षत्रम् पारा शक्ताः पुनः भुवनश्चपदे उपरिगृहाय पुरब्रह्मणे स्वय क्षत्रायच्छा हास्त्रकावायो भव्या राष्ट्रम् मेधाना स्वपदो राष्ट्रेणैवास्त्रे राष्ट्रमवन्धे राष्ट्र भवत्यात्मने राष्ट्रम् मेधाना सभुनो राष्ट्रम् प्रजा राष्ट्रम् प्रथमो राष्ट्रम् यक्षया भवति राष्ट्रेणैव राष्ट्रमवन् भवत्यभिलेहनेन भवत्यभिलयनेन आत्मेव जातान् वरुन्धव भाग्वेभोमस्य राष्ट्ररे राष्ट्रं न कल्पय दक्षिणम् चक्रम् प्रदक्ष राजेमभिजो या राहुजे माश्च कल्पय दिनाश्च कल्पमाना राष्ट्रमकल्पये सङ्ग्रामे संयक्ते हो दव्या राष्ट्रं देहाष्ट्रय प्रदेशं ्रामं जगयित्वा भगवत्मा a यज्ञेन जनभेणाश्चकल्पयत् तेवागेव नृषमे च यज्ञानां पने ्रागम् जगति दानमुत्तमं धाकाण्यपश्चादेवास्त्रीशन्दाकृत्यया दयामान्यपैनमुत्तरमनिज्ञानमत्येताम् मेधानापने ुवे नेतान्दागं सुले देवागं चेत् याकृ जगदीशे ॐक्षरायकालशोच्चा एकालक्ष द्वादशाष्टेन <laughs> प्रजापद्राता ेवतायस्ताय सः सर्वा निर्वचयि स्वरागेन कृतः प्रथमेधारिकेयम् निर्वभेत् ततो जेदोत्तरे निर्वभेत् तथेहन्न प्रदहम् कथो यत्मै कामणे वृक्ष्ये त्वे यत्मान्शो अनमेव भवानः ेवाः आभाक्षेमृदयो भेदन्मो योगम् प्राणत स्वच्छदानः सायङ्क्यः क्षं जोत्याहुये चका एव उपधत्क्षेमाणो एतत् चेष्टकार्याय प्रासब्दोष्टात् दत्तोपधत्यैकहात्रयो विदधाः क्षराजिना गिराजमेवा चेष्टनान् दृष्टोपधत्तेभो विनाः ैवेन समयदिनागजमानो निश्चिकुजा या देवां जति तादृशुञ्जवचाद्यक्षिणौ युक्तोषेयं जत्युभयत्रैव भवन् कुरियानु यद्गङ्ग्रहानन्मारोहय चलभक्षायां रक्षात्यन्दागणपदभयन्ते समारोह कैशवा एव समारोहयश्चाद्योक्तयेभे समारोहयते योगातुम् समारोहयते स्वनज्ञो दशा त्याकहे ब्रह्मा जयणां जाना विता सत्त्वेन सम्मत्यम् चायना विपक्ष्यन्मे सखात् औकारे हृदयं पारत्त्वे तदनैव नमामि जिनालोकसुदानव अस्पर्यै तथा जिनान् मानमस्तु भामितावदेह हविष्मं स्वानमसाकिदेवते कृप्ध्वनमयो रक्षमानावावदतो अध्यायके रघुनाः इक्षुजनानां मदवदनं वद्यत्मध्यकानावन् अगुम् तैः वदकि वद्भावलत्रमोचये धरा सतसाधिषयुः रजत्वं चेष्टश्च कृष्म इह राज इन्द्राफलक्षणे नाम सिन्धो नामेव सत्यः इन्द्रे ध्यायदत्तमिन्द्रब्रह्मणा महान् भुवो विश्वेणः भगवत्य मुद्रादिष्टो देवस्य हरत्यञ्चित्रित्रय चित्रोदानाम् मित्रकृत्यानि भव्यम् सर्वमित्र आदित्यन्ति भिमानस्तत्त्वादेन <Sessimus> मुदयण्डविद्वान् ैव देवारणस्कारो नेवादिवसम् समुत्तमे नागहितमानयन्ता संवदम् तामहित्वा ेव ोऽवासो निरक्षकम् हविनाभेदधादित्या हेतौ होमावगच्छन्तामजभवत्तनसमानहेतौ दैव दर्शपोर्णभाय दर्शपोर्णभाषा बालभे जगेन योजनलोमञ्च प्रतिलोमञ्च विद्यादित्यमाभात्यां तदनुभं भवनभाक्यै कृते तत्प्रतिलोमञ्च न्नवासी भोगमलभे लक्ष्मी दोममे नाबालभे रामोपक्षीयमानमन्दपक्षीय भारपो बल्युभुयागमाधाम रामदेव नाबालभयः ज्यायमानमन्दात्यायतः ज्ञा वेष्टालजगमानम् पुनस्तान्यप्रत्यै जलगुरस्महे बालजगवान्याः भवत्यज्ञर्वे यज्ञमुखै यज्ञमुखदेवम् पुनस्तानाः प्रत्ययत्रये समभवति यज्ञा वेष्टं यज्ञदेवानभ्यक्षलत्मत्यै जगत्फलविधामदे बालशगपालो मा भास्या वेदस्पदे गो नावत्तः गोदक्षिणासमध्यये त्यक्षन्नाम सञ्जम्भयच्छ प्रत्यक्षाम्यत्वारथान्ते धने तरे प्रजाय ब्रह्माकार्यैव जायते लक्ष्मण य प्राक्षरञ्जन्मत्याह देवा वे क्षादय त्रयैव यज्ञं प्राह प्रेजर्माय त्वा धर्मजन्मत्याह मनुष्या वे धर्मा मनुष्य त्रैव यज्ञं ब्राह्म्यञ्जन्मय चाहे च एवलोय धर्म यज्ञम् ब्राह्मण ब्रह्मा विरुच्यै त्वादस्कं जन्म नवावे भ्यक्त्वा जन्मेत्याः एकादशित्याहौ चिदभ्यक्तान्मेत्याह देवादेव प्रजाभ्यक्ता अपलानां एव मजो न संसनास एव रच्छोधि यत्सोधि यन्नेष्टाम् रच्छे